ओत्सखायम् सख्यावावृत्त्यान् तिरः पुरोदे तर्णवञ्जघण्तर्णपातमादधिकमेधाधिक्षमिप्रतरन्वेध्यानः ते सखा सख्यम् वष्ठ्येतत्सलक्ष्मायज्ञशोरोपाभवाति स्फुत्रासोऽसूरस्य वीरादिवो धर्तारार्व्यापरिख्यन् उशन्ते घाते अमृता स एतदेकस्य चेत्यजसम्मत्यस्य निरेमनो मनसिधा यस्मेदन्यः पतिस्तन्वा आमावीविश्याः न यत्पुरा च कमागद्ध नो न मृतम् वदन् तो अनृतम् प्रपेम गन्धर्वा अप्स्वप्या जयशासानो नाभ्यः परमञ्जाभिन्नौ गर्भेऽनुनौ जिताकम्पदे गर्देव स्पष्ठा समिता विश्वरोपः न केरलस्य प्रमे नन्दव्रता निवेदनावस्य प्रथिवेदद्यौ को अद्ययम् ते धुलिका ऋतस्य भामिनो द्रोढणायूर् आसन्नेशोन्स्वसामयो भोन्यसाम् प्रत्यामृणहत्सजी वा अस्य वेदप्रथामस्याकयेन्द्रदर्शय प्रवोचत् बृहन्मित्रस्य वगोडस्य धामकलु प्रवाहनापेक्ष्याद्रेण यमस्य मायम्या आगमागन्समाने यो नो जाये यायेव पत्ये धन्वम् विच्छामि चद्गृहे वरथ्येव चत्रा न तिष्ठन्ति न निमेषन्त्येते देवानाम् अन्येन मुदाहनो याहितोऽयन्ते न विब्रहरथ्येव चक्रात्रेभिरस्माहभिदशस्येत् सूर्यस्य चक्षुर्मुहोरुन्निमीयात् दिवा प्रेशव्यामेथुना सम्बन्धो यमे यमस्य विवह दजामि आघाता गच्छादुप्ता यत्र चामयत्रे उपावर्मिः विषाभाय बाहुपन्यमेच्छस्वसुभगे पतिम्वत् किम् भ्राताः सद्यता नासम्भवादि किमुस्व सायम् निर्वृतम् काममोदापक्वे रे एतत्र पामि तन्वा मे तन्वा आम् सम्पे वृद्धि न रे नाथ्यम्यत्राहमस्मिनते तन्वा आसम्पावृच्छ अन्येन मत्प्रमलः कल्पयस्मरते भ्राता न वा बोधे तनोन् तन्वा आसम् पृच्छाम् पापमाहृयस्त्वसाहारम् निगच्छात् असैयथे तन्मनसोऽहृदो मे भ्रातास्व सुश्रय मे यच्छयीय मतोपाताशयमानैव ते मनाहृदयम् चाविदाम अन्याकिलत्वा गक्ष्येव युक्तम् परिश्वजाते लिपोजेव वृक्षम् अन्यभूषयम्यन्यबुक्त्वाम् परिष्वजाते लिपोजेव वृक्षम् तस्य वात्तम् मन इच्छासपातबाधा तृणस्वसंवितम् सुभद्राम् त्रेणच्छन्ताम् पो वा दावोषधयः स्थान्येकस्मिन्भुव नार्पेतानि वृषा वृष्णे दुदुहेतोहा दिवः पयाम् च यत्पो अदेते रदाभ्यः विःशंसवे दावरोणो यथाधिया स यज्ञियोऽधिजत सर्वद्रन्धर्वेरप्याचालोषणनदस्य नादे परे पातु मा मनः इष्टस्य मध्ये अदेतर्निधातु नो भ्राता नो ज्येष्ठप्रथमो विवोचति स्वचिन्नु भद्राक्षुमजे यशस्य प्युषावो वासमनभे सर्वती यदि मुषन्तमुषतमनुक्रतोमग्निम् होतारम् विदथा यजीजनन् अधत्यम् दत्सम् विध्वम् विचक्षणम् विराभारदिशेन शेनो अध्वरे यदि विशो गृणते दस्ममार्या अग्निम् होतारमथीयजायत सदासिरङ्गो से यव सेवपुष्य देहोत्राभिलग्नयमनोषस्वद्भावः भिलग्ने वायच्छ समानमुख्यो ओ, ओ वाचम् ससा वा उपयासि भोरेभिः उदेरय वितदा दादाभगमियक्षति हर्यतो हृत्तयिष्यति विभक्ते वह्निस्व पश्यते मघश्च विश्वते हसो नो देशा यस्ते दे अग्ने सुमहतिम् मर्ताख्यत्सहसत्सो नो दिशप्रशङ्गे विषम् दधा नो वहमानाश्वैरा सद्युमा समाबान्भोज विद्योन् सुधेनाग्ने स र्धमृतस्य द्रवित्तम् आनोपह रोदसि देवबुद्धे मागिर्देवानामप भोरिहस्याः रग्न एषा समे दर्भवाचिदेवी देवेशो यजाताय तत्र रत्ना च यद्विभदासि स्वभावो भागन्नात्र वसोमन्तम् अनन्तग्निरुषसामग्रामख्यदन्वहाणि प्रथमो जातवेदाः अनुसूर्यावृषसोऽनुरश्मेन मद्या वा पृथिवी आविवेश प्रत्यग्निरुषसामग्रामख्यप्रत्यहाणि प्रथमो जातवेदाः प्रतिसूर्यस्य मुरुधा च रश्मेन्प्रतिद्या वा पृथिवी आतदान ्यावाहक्षामा प्रथमे ऋतेनाभिश्रामे देवो सत्यवाचा देवोयन्मत्तान्यथाय कुण्वन् चेदद्धोतात् प्रत्यान् स्वमश्रियन् देवो देवान्प्रतिभोर्तेन वहानो हव्यम् प्रथमश्चेभित्वान् धूमके यदस्वामिधा भारजीव मन्द्रतानित्यो वाचायजीयान् अर्चामिवाम् वर्धायापो हृदस्नोद्यावा भौमे शृणुतम् रोदसी मे अहायद्दे वासो ने विमायन्मद्भात्र वितराशिशीताम् स्वावृगदेवस्यामृतैर्यधे गोरतो जाता सो धारयन्त पूर्वी विश्वे देवानुतद्धेज विदृहेज देनेः दिव्यम् घृतम् वा किम् श्रीन्नागाजाजगृहे कतस्या व्रतम् च कृमाको विवेद मित्रश्चिद्धिष्माजुहुराणो देवाञ्छ्लोका न यातामपि वाच अस्ति धुर्मन्तत्रामृतस्य नाम सलक्ष्मा यद्विषोरूपा भवाति यमस्य यो मनमजे सुमन्तग्नेतमृस्ववाक्यप्रायुच्छन् यस्मिन् देवा विदधे मादयन्ते विवशने सूर्ये द्योजनदधर्मास्यान्परिद्योधनिम् जरथो अजस्रा यस्मिन् देवामन्मानि सञ्चरम् कपीच्ये येन वयमस्य विद्मा पित्रो नो अत्रादे जननागात्सविता देवोऽवरुणायवोचत् सखाया शेषा महे ब्रह्मेन्द्राय वज्रिणे स्तुषमोषकृमाय सृष्णवे स वसाख्यसि श्रुतो वृत्रहत्येन वृत्राः मघेर्मघो नातिशूरदाशसि स्त्रेकोरक्षामत्येषु पृथिवे महे नो माता इह वान्तो भूमौ मित्रो युज्यमानो अग्निर्वने नव्यसृष्ठशोकम् स्तैः सुतङ्गर्प्रसदञ्जनानाम् राजानम् हेममुपहत्तुमुग्रम् मृणाच हृत्रैरुद्रस्तवानोऽन्यमस्मत्ते निवापन्तु सैन्यम् सरस्वतेन्दे वयन्तो हवन्ते सरस्वते मद्भरे दायमाने सरस्वतेम् सुगदाहवन्ते सरस्वते दाशिषे वार्यम्त्वात् सरस्वतेम् पितराहवन्ते दक्षिणा यज्ञमाभिलक्षमाणाः आसद्यास्मिन्वर्हिरेमादयद्धमनमेवायुषे ह्यस्मे सरस्वति या सरथै ययाथोर्थये स्वदाभिर्देवि पितृभिर्म गन्ति सहस्रार्धमिडोऽत्र भागम् रायस्पोषै यजामाना यधेः उदेलतामवालवुत्पलासमुन्नध्यामाः पितरः सौम्यासाः असय्यये यादृकालतज्ञास्थेनो वन्तपितरो हमेशु आहम् पितरेषु विदुत्का भवेत्सिपातम् च विक्रमाणम् चा विस्मा ये स्वतया सुतस्य भजम् तपि त्वस्त इहागामिष्ठाः इदम् पितृभ्यानमास्पर्जये पूर्वासो ये अपरासयेयुः हे पार्थे वेदजस्यानिषत्ताये वा नूनम् सोवृजना सु दिक्षो मातले कव्ये यमोऽङ्गेरो ांश्च देवाहवृथुर्ये च देवां स्त्रेमोः वन्दपितरोहवेषु स्वानुष्ठिलायम् वधोमा उदायम् ते व्रः किलायम् वसावा उदायम् उतोम् त्वा आस्य पापिमां समिन्धन्न परे इवांसम् प्रवतो महेले वहुभ्यः पन्थामनुपस्पसानम् वयस्वतम् सङ्गमानम् जनाना यमम् प्राजानम् अभिशासपर्यत यमो नो गातुम् प्राथमो वे वेदनैषा गम्यो यत्रा नः पूर्वे पितरः परेता येन जज्ञानापथ्या आनुस्वाह परे तदः पितरभूर्त्या आग्वाकिमावहव्याचकृमादिषध्वम् ता गता वा माहिं ो निषद्येतन्नोहभिरभिकेणन्तु विश्वे माहिंशिष्टविदरह्येन चिह्नाय भागः पुरुषताकराहमष्टादृशित्रैव हतम् नेदं विश्वम् भुवनम् समेति यमस्य माता पर्युह्यमानामहोजाय विवस्वतो न नाश प्रेः प्रेः पदः पूर्याणेर्येनाथे पूर्वे पितरः प्रेता गुहाराजानोऽस्पथयामदम् तोयमम् पश्यासेवोऽनम् च देवम् अप्रेतयेतवितसर्पतातोऽस्मा एतम् चिररो लोकमखन् भिरक्तुभिर्व्यक्तै यमोद्यासाना वस्मै उशन्तस्ते धीमह्युषन्तः स्वमे धीमहि उशन्नो शतावह पितृर्न्नविषे अर्थवे युमन्तस्ते धीमहि जुमन्तः स्वमे धीमहि युमान्द्यो मतावह पितृर्हविषे अङ्गेरसोऽनः पितरो न भग्वाथर्वानोऽभगवः सोम्यासाः तेषाम् वयम् सोमतो यज्ञयानामपि भद्रे सोमहेशे श्याम अङ्गेरोऽभिर्यज्ञैरागाहीहयमा वैरूपैरिहमादयस्व विवस्वन्तम् हृदे यः पिता तेऽस्मिन् बलहेश्चानिषद्य किमय्यमप्रस्थलमाहिनोऽहाङ्गेरोऽभिक्विदभ्यः मा संविधानः आत्त्वामन्तात्कविषस्तावाहम् ते नाराजन्हभिषामादयस्व युत एत उदारोहम् निवः पृष्ठान्यारोहन् प्रभोद्गयो यथा पथाध्यामङ्गेरसो ययोः यमायसोमः पवते यमाय क्रियते हविः यमम् हयज्ञो गच्छत्यज्ञितो अलङ्कृतः यमाया मधोरप्तमञ्जुहोता प्रजातिष्ठत इदन्नमनुषेभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः यमाया घृतवत्पयोराज्ञे हविर्जुहोतन स्व ना जीवेष्वायामे जीर्घमाजुःप्रजीवसे मैनामग्नेविदहोमाभिजोषु चोमा स्यम् चिक्षिपोमाशरीहीरम् श्रुतम् यदा करासि जातवेदोऽक्षेमेन वरेतात्पितौ यदा श्रुतम् कृणवा यदो गच्छात्यशो नेतिमेतामथा देपागाम् वशा निर्भावादि त्रिकर्तृगेऽभिर्पवते चतुर्वीरे कामिद्बृहत् दृष्टोगाः यत्रेच्छन्दाहम्सि सर्वातायम आत्मीत स्वोर्यन्तक्षोषा गच्छवातमात्मनादिपञ्च गच्छिवे शर्मादे अपोभागच्छयि तत्र देहितमोषाधेश्वप्रदेतिष्ठाशरीरैः अजोभागस्तपसस्तन्तपस्वतन्ते शोतिस्तपतन्ते अर्चिः यास्ते शिवास्तन्वो जादवेदस्ताभिर्वहैनम् सुकृतामुलोकम् यास्ते शोचयो ब्रह्म यो, यो जातवेदोयाभेरा प्रणाशिदिवामन्तरिक्षम् अरे यन्तः स्वमृणतामखेतराभिः शिवतामाभिः सुतम् दृधि अपसृत पुनरग्ने पितृभ्यायस्त आहोतश्चरभिस्वधावान् आयर्वसानमुपायातु शेषः सङ्गच्छताम् तन्वाः सुवर्चाः अतिद्रपश्वानौ सारमेयौ च तु रक्षौ शबलौ साधुना पथा तथा पितॄन्सो विदत्रा अपेहयमे न ये साधमाधम् वदन्ति यौतेष्वानो यमलक्षितालो जदुर्लक्षौपाधिषदे न चक्षसाभ्याम् राजन् परेधे ह्येनम् स्वस्त्यस्मानमेवम् चेः पुरोणसावसदृपाुदुम्फालो यमस्य धूतौ च रथोचना तावस्मभ्यम् द्विषये सूर्याणि पुनर्दातामसो मध्येह सो भद्रम् सोमयेकेऽभ्यः पवदे शतमेकमुपासते रेऽभ्यामसप्रधावसितां स्वेदेवापे गच्छता ये चित्पूर्वार्तसा तार्तजातारतावृथाः नपस्ततोयमतपोजा अपेगच्छतात् तपसाये अनाधिशास्तपसाये स्वर्ययोः तपोये चक्रवेमहस्तांश्चे देवापे गच्छतात् ये युध्यन्ते प्रधनः शुशूरा सो ये च मूर्त्यजाः देवासहस्रदक्षिणास्तांश्चे देवापि सहस्रालेखाः कवयो ये गोपायन्ति सूर्यम् ऋषेन्दवः सदाय मदपोजा अपे गच्छतात् स्योनास्मे भव पृथिव्यदक्षारानिवेशानि यच्छास्मे शर्मा सप्रथाः असम्वादे पृथिव्या पुनौ लोके निधेये वधायाश्च कृषयजेभन्तास्ते सन्तुमधुश्चिताः त्वयामि ते मन सामन ये माम् गृहा उपदिगुषानयेः सङ्गच्छस्व विगृभिः संयमेन स्योना स्वातामुपमान्तु शग्माः उक्त्वा अजेन सन्वन्दस्येदम् वर्षेणोच्छन्तु पालिजि उदः पमायुधा युषे क्रे दक्षाय जीवसे स्वाम् गच्छतु ते मनोधा पितृरुपद्रव मा ते मनोमासोर्माङ्गा नाम् माते रसस्य मा ते त्मा वृक्षः सम्बाधस्वमा देवी प्रथिवीमही लोकम् पितुषो वित्तैध स्वयमराजसो व्यक्ते अङ्गमते हिरम् पराजेन पाणः अपेमम् देवारुधम् गृहेभ्यस्तम् निर्वहत परिग्रामादितः प्रत्युर्यमस्यासे दोतः प्रचेतासोम् पितृभ्यागमायाम् चकार एदस्य पितृषुप्रविष्टाज्ञातिमुखा हुता दश्चरन्ति परापुराणि पुरो ये भरम् जग्निष्ठानस्मात् प्रथमादियज्ञान् सन्देशन्ति हितरस्मानस्योऽनम् गण्वन्तः प्रतिनन्त आयोः एभ्यः शके महविषालक्षमाणाजोऽ शरदः पुरोषेः यान्ते धेनुम् ने प्रणामि तेनाजनस्यासो भर्ता योऽत्राशदजीवनः अश्वागते व्रत रयासु चे वा स्वाकम् वा प्रतरन्वीयः यस्त्वा जघानवध्यः सोऽस्तु मासो अन्यद्वेदभाग अधेयम् यमे अध्वरो अधे मे निवेष्टो भुवो विवस्वानन्वातान अपागोहन्नमृताम् मत्येऽप्यभृत्या सवर्णामदधनुविवस्वते पुत्राश्विनावत्यः द्वद्वा मेथुनास अन्योः ये निखाः ताये भगवः प्राये दग्धा येषोद्धीताः सर्वाम् स्थानग्नाः पितृह्नविषय अर्तवे ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवस्वधया मादयन्ते वन्तान्वेच्छायचेते जातवेदस्वधया यज्ञम् सेदिन्दुषन्ताम् सन्तापमादेतपो अग्ने मातन्वन्तपः ुशुष्मा अस्तु ते पृथिव्यामस्तु यद्धराः तदाम्यस्मासारे दद्य एषा कन्वमाचेत भो दिह यमश्चेकित्तान् प्रत्येतदाह मैषरायमुपातिष्ठतामिह इमाम् माताम् इमे महे यथापन्वसापि सते शरत्सुना पुरा ेमाम् मात्रामि महे यथा बालम् नमासाते सद शरत्सु नो पुरा अपेमाम् यथा बालम् नमासाते शत शरत्सु नो पुरा वी यथा बालम् नमासाते सद शरत्सु निलिमाम् मात्राम् निमेमः यथा पारम् नमासाते शते शरत् सुनोपुरा उदिमाम् मात्राम् निमेमः यथा पारम् नमासाते शते शरत्सु नोपुरा समिमाम् मात्राम् निमेमः यथा पारम् नमासाते शत शरत् सुनोपुरा मासिमाताम् स्वरकामायुष्मान् भोयासम् यथापामासादेशते सरः सुलोपुराणोऽपालो व्यानायश्चक्षुर्दृषये सूर्याय अपरिपलेन पथायमराज्ञच्छ ये अग्रवश्य समानात्पदेजुर्हित्वाव्येषां स नापश्च्यवन्तः ते द्यामुदित्याः विदन्तलोकन्नागस्य पृष्ठे अतिथेभ्यानाः उदन्मते ज्यौरवमबिलुमते ये मध्यमा तृतीयाः प्रत्यौरुजयस्याम् पितरासते तेन पितुः पितरो येऽपितामहायापि विशुर्वा आन्तरिक्षम् या क्षियन्ति पृथिवे पु्यान्तेभ्यः पितृभ्या नमासा विधेम इद विद्वाकुलातारम् दिपि पश्यसि शूर्यम् माता यथा शुचाभ्येनम् भोमगोर्णिः इदमिद्वानापारम् जल सन्न्यतोपागम् जायापते विवपासाध्येनम् भौमवोर्णहि अभित्तोऽर्णोऽपि पृथिव्या भद्रया येशो भद्रम् तन्मयि ये स्वथा पितृससात्तये अग्ने सोमापृथे कृता स्वानम् देवेभ्यो रत्नम् उपक्रेष्यन्तम् पोषणैयो वहात्यञ्जायानैः पतिभिस्तत्रागच्छतम् पोषात्रेतश्चावयदप्रविद्वाननश्च पशुम्भुवनस्य गोपाः सत्यैतेभ्यः परिगतस्पितुभ्याग्निर्जेवेभ्यः सुमिदत्रयेभ्यः आयुर्विश्वायुः परे पादुत्वा भूढात्वा पादु प्रकाशे पुरस्तात् यत्रा च सुकृता यत्र तेयुस्तत्र त्वा देवः स वितदधातु इममु यो नग्निधे वह्ने असो नेता योढदे ताभ्यायमस्य सादयम् समेधेश्चावगच्छतात् एतत्त्वा वासप्रथामन्वा घन्न पैतदोहायदिहापेभः पुरा इष्टापूर्तमानुसङ्ग्रामविद्वान्यदत्तम् बाहुधा विधोरिलोघयः स्वसम्भ्राणः स्वमेता सापीवासा च एत्वा धृष्टः गङ्गम् हस्तादातदानो गदास सह श्रोत्रेण साफलेन अत्रैव वयम् सुवेरा विश्वामृथोऽभिमा तेर्जयेम फलमहस्ता दातदा नो मृतस्य सह क्षत्रेण वक्ष सफलेन समाग्रभाज सुसोदे त्वमेह्युपाजीवलोकम् यन्नादेवति लोकम् वृणाना विपद्यतमुपत्वमत्यप्रयतम् धर्मम् पुराणमानुपालयन् देदस्ये प्रजाम् द्रवीणम् चेहधेः उदेहस्वनार्यभिजेव लोकम् गता सोमेतमुपशेषयेहि अस्त लाभस्य तथेशोऽस्त्वेदम् पत्यर्जनित्वमभिसम्बभूथ अपश्यञ्जयुवाचिम् नीयमानाम् देवामृतेभ्यः परिणीयमाना अन्धे नयत्वसा प्रावृता से प्राक्व अपाहार्येव अविमत्यढे एव लोकम् देवानाम् पन्थामनुसञ्चरन्ति अयम् ते गोपाधिस्तोषस्वः सर्गल्लोकमधेरोहयैनम् उपत्यामुपादेशसमवर्तरो नदीना अग्नेऽपित्वमपामासे यन्तमग्ने समदाहस्तमुनिर्वाहापया पुनः ोरत्कारो हद शाण्डगौर्वाप्यशान्ताजेकम् परवोतयेकम् तृतीये न ज्योतिषः संवेशः सन्देश तिष्ठप्रेः प्रद्रवौ गृहश्वस निलेशधश्चे तत्र विद्रुभः संविधानः संसोगेन मदस्वसंस्वराभिः प्रत्यागस्वतन्वा आम् सम्भारस्तमादेगात्माभिहा इमो शरीरम् मनोनिविष्टमनुसन्देशस्त्वयत्र भूमेषसे तत्र गच्छ वर्च सा माम् पितरः सौम्या सो अञ्जन्तु देवामधूनाधृतेन चक्षुषेमा प्रतारम् तालयन्तो जलसेमा जलदष्टिम् वर्धन्तु वर्च सा माम् समानत्वज्ञर्मेधाम् मे पुनन्तु मित्रावरो नापरिभामाधातामाधित्यामास्परमो वर्धयन्तु मच्चो मयेन्द्रोऽक्त्वस्त यो जलदश्चिन्मा सिनोतु यो ममारप्रथामो मध्यानाय पेयाय प्रथमो लोकमेतम् वैव स्वतम् सङ्गमानम् जनानायमम् राजानम् हमिषासपर्यत या तुलरा च जातायम्बो यज्ञो मधो नासमर्थः तत्त अस्मभ्यम् द्रवेणेहभद्रम् रयिम् च दः स्वर्गवेलम् दधात कण्वः कक्षेवान् गुरुमेढो अगस्त्य कश्यपो वामदेवः विश्वामित्रजमादज्ञाचन गोतम वामदेव षर्गर्माख्यैरग्रभेर्नमाभिः सुसंसासः पितारो मृडता तस्य मृजानातीयन्ति प्रमाय दधानाप्रतारम् नवीर्यः आत्यायमाना प्रजयाधनेनाथस्यामसुराभयो गृहेषु अञ्जते व्यञ्जते समञ्जते क्रतुम् गृहन्ति मधो नाभ्यञ्जते सिन्धारुत्सासे पतयन्तमुक्षणम् हिरण्यपापाः पशुमासु गृह्णते यद्वामुद्रम् पेतरः सौम्यम् च तेन हे अर्वाणः कपया शृणोतु सुविधर्त्रा विदधे हूयमाना ये अत्र योऽङ्गेरसोऽनवद्वायिष्ठावन्दो रातिशाचोदधानाः दक्षेणावन्दः धारसानः पितरः परासः कर्नासो रग्नसमाशशानाः शुचिरायम् देध्य तमुक्षशासक्षामाभिन्दन्तो रुणेरपोरन् सुकर्मा नः सुजो देवयन्तोऽयो न देवाजने माधमन्तः ज्ञम् वा वृथन्त इन्द्रमुर्वीम् गव्याम् परिषदन् आक्रन् आयोध रक्षुमते पश्वाक्षदेवानाम् च निवाञ्च विश्वम् तद्भद्रम् यदवन्ति देव बृहदेव सुवीराः इन्द्रो मामरुत्वान्पाच्च दिशः पाद्बाहुच्युदा पृथिवेद्यामेवोपरि गोगाकृतः पृथिवृतायजामहे ये देवानाम् मुदभागा निर्वत्या दक्षिणायादुषः पादुबाहुच्युदाः पृथिवेद्यामी गोपरिकृतः परिगृहायजामहे यदेवानाम् मुखभागा यहस्थ अदे चर्मादित्ये प्रदेच्छ्यादिषः पादुबाहुच्युदा पृथिवेद्यामी गोपरि लोककृतपथि कृतो यजामहे ये देवानाम् हुतभा गायहस्थ सोमो मा विश्वेदेवैरुदे च दिश पादुबाहुच्युता पृथिवेद्यामि भोपरि लोककृतपथि यजामहे ये देवानाम् हुतभा गायहस्थ धर्त्वा हत्वा धरुणो धारयाता वूर्ध्वम् भानुम् स विदाद्यामेवोपरि लोकाकृतः पथिकृतो यजामहे य देवानान्मुतभा गा ह्यस्थ प्राच्चान् द्वादिशि पुरा संवृत स्वधायामादधामि बाहुच्चुरा पृथिवेद्यामेवोपरि लोके कृतः प्रथिकृतो यजामहे ये देवानाम् मुतभा गाह्यश्च दक्षीणायान् त्वादिशिपुरा संवृतस्वधायामा दधामि बाहुच्युताः पृथिवेज्यामेव गोपने लोकाकृतः प्रथि कृता यजामहे ये देवानाम् मुतभा गाहश्च प्रदेच्यान् द्वादिशि पुरा संवृतस्वधायामा दधामि वा हुच्युताः पृथिवेद्यामेवोपरि गोक्याकृतः पथिकृतो यजामहे ये, ये देवानाम् मुदभा गा यहस्थ उदेत्यान् लोकाकृतः पथिगा यजामहे ये देवानामृतभा गायहस्थ ध्रुमायाम् त्वादिशपुरा संवृतस्वधायामा दधामि बाहत्युदा पृथिवेद्यामे गोपले लोकाकृतः पथिगा यजामहे ये देवानाम् मृतभा ऊर्ध्वा याहन्तादिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युताः पृथिवे जामि गोपरि गोच्युतः यजामहे ये देवानाम् मुतभा गायस्त धासे धरुणोऽसि पुंस गोसि दोरासि मधोपोरासि वारासि इतश्च मामृतश्चावतार्यमेयैव यजमानेयदैतम् सर्वाम्फलन्मानोषादे वयम् तु आसीदताम् स्वोकिम् विदाने स्वासस्थे भवत वेनो युजे वाम् ब्रह्म पूर्व्यन्नमोऽभित्येव सूरिः सन्वन्तु विश्वे अमृताशयेतत् रेणे पदानि रूपो अन्नारोहश्चतुष्पथे मन् भेतद्भृतेन अक्षरे न प्रतिमिमेते अर्कमृतस्य नाभावाभिसम् को नातिभ्यःकमावृणेतमहत्यम् प्रजाये किमवृतन्नावृणीत बृहस्पतिर्यज्ञमदलत अर्षप्रिया यमः सन्वा आमनीले च स्वज्ञये भितो जातभेदो वाधव्यादे सुर अभेदे कृत्वा राजापितभ्यः स्वधयादे हन्नद्ध्यत्वम् देवप्रयाताहवेंषे आसेनेनासो रुणेनाहमुपस्थेरयिन्धत्तदाशुषे मत्याय पुत्रेभ्यः पितरस्तस्य सुरभेच्छ अग्निष्वाक्ता पितरयेह गच्छद सदः सदः सतत सुप्रणीतयः अतोऽहवेषु प्रयातानि बर्हिषेरयन् सर्वेरन् दधात उपहृतानः पितरः सोन्यासो बर्हिष्येषु निधिषु प्रियेषु सागामन्तु तयः ते हे ेन पितुः पितरो ये पीता महानो जहिरे सोऽपेखम् वसिष्ठाः तेभिर्यमः सम्प्रकाणो हवेम् सुजन्नुषर्ध्यप्रतिकाममत्तो ये तादृ भर्त्राजेहमानाहोत्काविदस्थो मा तस्थासो अर्कैः आग्ने याहि सहस्रम् देववन्दे सत्ये कविभिर्विषेभिर्धर्म सद्भिः ए सत्यासोह विरुतो ह विश्वा इन्द्रेण देवैः सरथम् तुलेन आग्नेया सुत्रेभिरवारे पूर्वैर्विषेभिर्घर्म उपासर्पमातरम् भूमि भेदामगुर्व्यम् पृथिवेम् सुजेवा वूर्णम् रदा पृथिवे दक्षेनावदेषात्माः पादप्रपादे पुरस्तात् उत्सङ्गमायुपादथा सोपायनास्मै भव सोपसर्पणा माता पुत्रै यथा ना पृथिवीसु तिष्ठसु सहस्रम् वित उपाहिश्वयन्ता पा... ते गृहासोघतश्च तस्यो न विश्वाहास्ते सणाः सन्तत्र उत्ते स्तब्धामि पृथिवीम् तत्त्वलेमल्लोकम् अहम् वेषन् वेताम् सूणाम् वितरो धारयन्ति ते अत्र यमः कृणोतु इममज्ञेतमसम्माविजः परप्रियो देवानामृतसौम्यानाम् अनैयश्च मसोदे पमानस्तस्मिन् देवामृतामादयन्ताम् असर्वापूर्णम् च मसैयमिन्दायामे सर्वाजिनीवदे तस्मिन् कृणादि सुकृदश्च भक्ष्यम् तस्मिन्निन्दुः भवते वृत्ते कृष्णश्च गुणा तुतोपिपेनः सर्पतपाश्वापदः अग्नेष्टद्विश्वाच गतम् क्रेणोतु सोमश्चयो ब्राह्मणा विवेश वयस्त तेनोषाधयपयः सन् मामकम्पयाः अपाम्पय सोऽयद्वयस्तेन मासा सम्भत विमानालयेन विधवा सुवत्नी जनेन सत्विशा संस्पृशन्ताम् अनश्रवा अनमेवा सुरत्नारोऽहम् तु जनयो यो निमग्रे येन पितुः पितरो ये पीतामहायाविशुरूपा आन्तरिक्षम् तेभ्यः स्वराणशोधे दे निर्णा अर्त्यय धावशम् कर्मः कल्पयाति सन्देहणि आलो भवतु सन्देः पुष्पाशीयताम् शीतिजे शीति गावदेक्लादिकेक्लादिगावति मण्डोक्या आप्सु शम्भो व इमम् स्वा आज्ञम् श्यामय विभस्वान्नाभयङ्कणोदयः सुत्रादानुः सुदानोः इहे मे बेरा बहवो भवन्तु कोमदश्व भन्मय्यस्त्वपुष्ठम् विभस्वान्नामृतत्वे दधातुपदेतु मृत्युरमृतम् नायितु इमान् रक्षतु पुरोषानाय निम्नोमोऽस्मे शामसावोयमङ्गोः यो दद्धे अन्तरिक्षेण मह्नापितॄणाम् कविप्रमादर्मीनाम् समर्चत विश्वमित्नाहमिर्भिः सनाहायमप्रतरम् जीवसेधात् आरोहतमुक्तमामृषा यो माभि सोमभाः <Sess> सोमपायिन इदम्बः क्रियते हविरगन् मज्ज्योतिरुत्तमम् प्रकेतुना बृहताभाजिरारोदासी वृषभो रोति विवश्चिदम् दातुकामामुदा नडपामुपस्थे महिषोपावर्ध मा के सुवर्णमुपायत्पतम् दम् हृता वेदम् दोभ्यचक्षदत्वा हिरण्यवक्षम् वरो नस्य दोतञयमस्य लो नौ शकुमम्भोरन्यम् इन्द्रकृतम् नाभारपिता पुत्रेभ्यो यथा शिक्षाणा अस्मिन् गोलो होदामानि जीवाज्योतिरशीमहि अपोपादेहितान् कुम्भान्यां स्तेवाधारयन् धावन्तामधो मन्दोताः यास्ते धानानुगिरामितिरामिश्रास्वधावातीस्ते सन्तु मिभ्रे प्रग्धेस्तास्ते यमो राजानो मन्यताम् पुनश्चेहि वनस्पते येषः तस्मै यथा यमस्य यादनासादे विदधा वदन् आरभस्व जातवेदस्ते यः स्वद्भरो वस्तु ते शरीरमस्य सन्धाथे नन्दे सुकृतामुलोके एते पूर्वे परे पितरश्चाये एतदारोह वयमुन्मजानस्वा इह बृहदोदीनयन्ते अभिप्रेहे मध्यातो मापास्थाप्यत्रेणा लोकम् प्रथमो योऽत्र आरोह कृते दातवैर ददपित्रयाणे संभारो हामि अवाद्धव्येषिता सुकृतान्धत्त लोके देवायज्ञमृतवः कल्पयन्ति हविः पूर्वकाशम् सुजायज्ञायुधानि तेभिर्याहि पतिभिर्देवयाने ते ते जाना स्मर्गयन्ते जाना रथस्य लोकं। साध्वङ्गे रसः सुकृता ये नयन्ति याहि पतिभिः सर्ग्यत्रादित्यामथो भक्षयम्ृते ये नागे अधिविश्रायुष्वस्वपर्णावपारस्य मायो नागस्य पृष्टे विष्टुता स्वर्गा लोका अमृतेन विष्ठायिषमोर्जमानाय दुःक्रा अभृतन्तरिक्षम् श्रुपादाधार पृथिवेम् प्रतिष्ठा प्रथिमाल्लोकाशृतपृष्ठा स्वर्गाः कामम् कामयजमानाय शुप्राम् धृपालोह पृथिवेम् विश्वभाजसमन्तरिक्षमुपभृताक्रामस्व चोद्याङ्गक्षयमानेन साकम् सर्वा सुक्ष्वाहृणीयमानः हे श्रेष्टप्रवतो महेन्दे यज्ञाकृतः सुकृताय नयन् श्री अत्रादधर्यजामानाय लोकम् दिशो भूतानि यतकल्पयन्त अङ्गेरसामयानम् पूर्वा अग्न्याः दित्या नामयामङ्गारः भक्त्या ना ना ना ना दक्षिणा नामयानम् दक्षिणाग्निः महिमानामग्नेर्वहेदस्य ब्रह्म नासमङ्गः सर्गाजाहि लक्ष्मः ओर्व अग्निष्टा तपदुषम् पुरस्थाक्षम् पश्चात्तापतुकारः पत्यः दक्षिणाकृष्टे समदशर्मवर्मात्परतो मध्योऽन्तरिक्षाद्ये पी पाहि घोरात् योऽयमग्ने सन्तामाभिस्तनोभेदे यो जानमभिलोकम् स्वर्गम् अश्वा भूत्वा पृष्ठिमाहोवयच्च देवैः समादम् समज्ञे पश्चात्तापशम् पुरः साक्षमुक्तराच्छमाधारात्रापैनन् एकस्त्रेधातिहेदो जातवेदः सम्यगे नन्धेः स्मृतामुलोके समग्नयः यज्ञयेतिविदत्कल्पामानये जानमभिलोकम् स्वर्गम् तमग्नयः सर्वाहृतम् जषन्ताम् राजापत्यम् मेध्यम् राजवेदसः शिरम् गन्वन्दा इह मा वाजिक्षिपन् ये जानश्चित्तमालोक्षदग्निर्नागश्च तस्मै प्रभात न भासो ज्योतेशे मा स्वर्गः पन्थाः सुकृते देवयानाः अग्निलहोतात् धर्योष्ठ बृहस्पतिलिङ्ग ब्रह्मा दक्षिणादस्तेऽस्तु हुतोऽयम् संस्थेतो यज्ञये तत्र पूर्वामयालम् हुतानापोपवान् क्षीरवान् पथि कृता यजामः ये देवानाम् हृतभागाहिहस्थ अपोपवान् देवांश्चे हसेदतो लोकाकृता पथि कृता यजामः ये देवानाम् हृतभागा गृहस्थ अपोपवान् गप्सवाँ पोपवान् गतवान् लोकाकृत पृथिगतायजामः य देवानाम् हृदभागायहस्थ अपोपवान् मांसवान् सर्वरेहसेन लोककृत प्रथिगतायजामः य देवानाम् हृदभागायहस्थ अपोपमानन्न वां सर्वे हसे पथि कृतो यजामः ये देवानाम् हृतभागा हस्थ अपोपवान् मधोभान् सरुले ह सेदतो लो गाकृद पथि कृतो यजामः ये देवानाम् हृतभागा हस्थ अपोपवान् रसान् सरुले ह सेदतो लो गा कृपथि हश्च अपोपवार्ता माम् सरुदेहसेतोपथिकृता यजामहे ये, ये देवानाम् हुतभागायहश्च अपोपापे हितान् कुम्भान्याम् स्वे देवाधारयन् ए दे सन्तु स्वधावन् यास्ते धाल स्वधा सन्तोद्धे प्रग्धे स्थास्ते यमो राजानो मन्यता अक्षेतिम् भूयासे रत्सश्च स्कन्दपृथिवेम नद्यामिमञ्चयो निमलयश्च पूर्वाः समाणै यो निमलो सञ्चरन् दन्दसंजो होम्य सप्तहोत्राः म् वायमर्कम् स्वर्वितम् प्रचक्षसस्ते अभिचक्षते लयिम् हे वृणन्ति प्रचायच्छन्ति सर्वकाते दुःप्रदे दक्षीणाम् सप्तमादरम् कोशम् गृहन्ति कलशम् तदर्विलभिताम् धेनुम् मधो मदे स्वस्तये ओर्जम्मतम् देवते निम् जनेष्वज्ञे माहिम् दे परमेव्यामम् एदत्ते देवस्य वितावासो दृदातु भर्तवे तद्वयमस्य राज्येऽवधानस्तात्प्यञ्चर भानाधेतुरभवद्भत्सो अस्यास्तिलोऽभवत् ताम् ैयमस्य राज्ये अक्षेतामुपाजीवति एतास्ते असौ धैनवः कामदुभा भवन्तु येनेश्येने सरोपामिरोपासि यावत्सामुपागच्छन् धुत्वात्र येनेऽर्धानारेणेश्येनीरस्य कृष्णाधानारोहेणेऽर्धैनमस्ते तिलवत्सावोर्जमस्मै दुहाना विश्वाहा सन्त्वनवस्फुरङ्गी वै स्वानले हविरिदम् जोहोमि साहस्रम् शतधारमुत्सम् चाम्ठा स देभर्ति पितरम् पिता महान् प्रपेद महान् देहर्ति विन्द्रमानः सहस्राधारम् शतधारमुत्सहमक्षेपम् यच्यमानम् सलिलस्य पृष्ठे ुहानमनवस्फुरम् परमुपासत पिटर स्वधाभिः विदङ्गसाम् भोजयनेन चिदम् तत्स जाता पश्याचेत मर्जायमामृतमेस्मै गृहान् क्रेणुदया वत्सबन्धो विहैवकस देरिह नित्तयः करो विहेधे वीर्यवत्तरोपयो पुत्रम् गोत्रामभितर्पयन्ते राभो मधो मतेरिमा स्वम् पितृभ्यो अमृतम् दुहानापो देवे लुभयाम् तर्पयन्तु आपो अग्निम् ग्रहेण पितॄपेण यज्ञम् विदरा मे दुषन्त आसीनामोर्जामुपाये सचन्ते तेनोदयिम् सर्वेरन्यच्छ समिन्धते अमत्यम् ह्यापाहम् ध प्रियम् सवे सहीरान्निषेन्पितृन्पहरावतो गतान् यन्ते मन्थय्यवदनयन्मान् सन्निपृणापीते एते सन्तः स्वधावन्तो गतश्च्युताः स्ते धानानुकिलामि किलामि श्रास्वरावादीः कास्ते सन्तोद्भे प्रभेस्तास्ते यमो राजानो मन्यता इदम् पूर्वमुकारम् नियालिङ्गेन ते पूर्वे पितरः परेताः पुरोगकार्ये अभिशाचोऽस्य चेत्त्वा वहन्ति सुकृतामुक सरस्वतेन्दे वयन्दाहवन्दे सरस्वते मध्वरे दायमाने सरस्वतेम् सुकृदाहवन्ते सरस्वते दाशुषे पार्यम् दा सरस्वतेम् पितरा हवन्दे दक्षिणा यज्ञमाभिलक्षमाणाः आसद्यास्मिन् बले हेमादय ध्वमनमेवायुषे सरस्वतिया शरथै यया चोर्थेश्वधाभिर्देव पितृभिर्मदन्ति सहस्रार्घमिडोऽत्र भागम् घाय स्पोषै यजामानाय धेहि पृथिवेन्त्वा पृथिव्या मा वेशयामि देवो न धाता प्रदे रात्यायोः पराः परैतावश मे द्वा त्यावेधामपातन्था यद्वाहामेव अत्रोचः अस्मादेतामग्नो दद्वशे योधातुः पितरभोज नौ मम व्ययमगन्धक्षेना भद्रतो नो अनेन दत्ता सुखावयोधाः यौवनेः देवानोपपृञ्जते जना पितृभ्य उपसम्पनानयातिमान् हिरम् पितृभ्यः प्रभारामि बलिर्जीवम् देवेभ्य उत्तरम् स्तृणामि कदाह पुरुषमेभ्यो भवन् पृथित्वाजानन्तु पितरः परेतम् एदम् बलिहिरासु गोमेध्यो भवतिपाजानन्तु पितरः परेतम् यथा परुतन्वा आम् सम्भ्राम स्वगात्राणि भे ब्रह्मण अर्णो राजा विधानम् जनो नामोर्जवलम् सह मो जनागन् आयुजीवेर्घ्य विदधत्ये अर्घायत्वाय शतशारदाय ओर्ज भागोय इमम् जानाश्वान्नामाधे वत्यम् जगाम कमश्च त विश्वमित्रा हभ्यः सनायमप्रातरम् देवसधा थायमाय हर्म्यम सम्प्रमानवाः एवा वापामि हर्म्यै यथा मे भो राजोऽसदः इदम् हिरण्यम्यभेयते पिता मेभः पुरा स्वर्गे यतप्यदृहस्तन्ये दक्षीणम् ये च देवाय च मृताय यज्ञियाः भ्यो ऋषदश्च तुल्यैकमधोधाराव्यन्दति विशावतीनाम् पर्वतविचक्षयण स्वो गोह्नाम् भातरेः दोषसाम् दिवः प्राणस्य कलशामजैतलिङ्गस्य देवाभिषन्माधेशयाः देशश्चे धूमपोर्णोषन् शुक्राजातः सोरो न हेद्युतात्तम् कृपापकरोच से प्रवायेतेन्दुरिन्द्रस्य निश्चेतुम् सखा सुख्योन्नमेनातिसङ्गिरः पर्यायिवयोषाः समर्शसे सोमः कलशेषदयामनापथा अक्षन्न मे मदन्तश्च्य वा प्रिया अधोषत अस्ताशतस्वभावप्राय विष्ठायीमहे आयातपितरः सौम्यासो गम्भीरे पतिभिः पितरयाणीः आयोदस्मभ्यम् दृधर प्रजाङ्गराजश्च घविरत्वम् सुप्रजलसुवीरा यद्वाग्निरजादेकमङ्गम् विदृकङ्गमयम् जातवेदाः तद्वा यदः पुनराज्ञालयापि साङ्गा स्वद्यपितरो मादयध्वम् अभो दोतप्रहेदो दो जातवेदाः सायम् दो जह्म् जागृभेः पितृभ्यः स्मृदयादेक्षन्नध्यत्वम् देवप्रयाताहवेंषि असौ हा इह चे मलक्षकुत्सलमिव चामयाः अभ्ये नम्भोमभूर्नुहि शृम्भन्ताल्लोकाप्य त्रषदानाप्य ऋषदानेऽ्य लोकासादयामि येऽस्माकम् पितरस्तेषाम् उदत्तमम् वारुणपाशामस्मदवाधमम् निमध्यमम् साय अथा वयमारित्यम् व्रदेतवानागसो अतीतये स्याम प्रास्मत्पाशाहन्वरुणम् च सर्वान्यैः समाने बध्यते यैर्व्यामे अथा जीवेम शरदम् शदालिप्तया राजन् कुपिटा अग्नये गव्यवाहनाय स्वधा नमाह सोमाहाय विद्रुमादय स्वधा नमाः पितृभ्यः सोमा स्वधा नमाः यमाय विदृमादय स्वधा नमाः हे दत्ते अप्रददामः स्वधाय ध त्वामनो हे दत्ते ददामः स्वधाय स्वधापितृभ्यः प्रथिविषद्भ्यः स्वधापितृभ्यान्तरिक्षसद्भ्यः स्वधापितृभ्योऽपिषद्भ्यः नमावक्पिदलगोर्धे नमावक्पितलो रसाय नमावक्पितलो भामाय नमावक्पितलो मन्यपे नमावक्पिदलोयद्धोलन्दस्मे नमावक्पितलाय क्रूरन्दस्मे नमावपितरायच्छिवन्दस्मै नमावपितरायच्छनन्दस्मै नमावप्पितरस्वभावपितरः येऽत्र पितरः पितरायेऽत्र पितरा योऽयं पितरा स्थ युष्मांस्तेनो योऽयम् तेषाम् श्रेष्ठ भूयास्थ य इह पितरा जीवा इह वयम् स्मः अस्मांस्तेनोभयम् तेषाम् श्रेष्ठा भूयास्म आत्मात्रि देवन्तम् देवाचलम् यद्धसा देपनीयशेषमिर्धेदया दिद्यति विशम् स्तोत्रभ्या भार चन्द्रमा स्वा आन्तराशोपर्णो धावत दिवि यः परम् निन्द्रन्त्रि विद्युदो वित्तम् ने अस्य रोदसी